सेव्यमानपावनाघ्रिपङ्कजम् व्यालयज्ञसूत्रबिन्दुशेखरम् कृपाकरम् नारदादियोगि वृन्दवन्दितम् दिगम्बरम् काशिकापुराधिनाथ कालभैरवम् भुजे भानुकोटिभास्वरम् भवाभितारकम् परम् नीलकण्ठमीप्सिताथदायकम् त्रिलोचनं। कालकालमम् बुजाक्षमक्ष शूलमक्षरम् काशिका श्यामकायमादिदेवमक्षरम् निरामयम् भीमविक्रमं प्रभुन् विचित्रताण्डवप्रियम् काशिका पुरादिनाथ कालभैरवम् वदे मुक्तिमुक्तिदायकम् प्रशस्तचारु भक्तवत्सलम् स्थिरम् समस्तलोकविग्रहम् निगुणन् मनोज्ञ हेम किम् किल सत्कटिम् काशिका भजे धर्मसेतुपालकम् त्वधर्ममादनाशकम् कर्म पाशमोचकम् सुशर्मदायकम् निगुम् त्वर्णवर्णकेशपाशोभिताङ्गनिर्मलम् काशिका पुराधिनाथ कालभैरवम् भवे रत्नपादुका प्रभाभिरामपादयुक्मकम् मद्वितीयमिष्ट दैवतम् निरञ्जनम् मृत्युदर्पनाशनम् करालदम् श्रभूषणम् काशिकापुराधिनाथ कालभैरवम् भजे अट्टहास भिन्न नष्ट पापजालमुद्रशासनम् अष्ट सिद्धिदायकम् कपाल मालिकाधरम् काशिकापोराधिनाथ काल भैरवम् भजे भूतसङ्घनायकम् विशाल कीर्तिदायकम् काशीवासि लोकपुण्यपापशोधकम् नीतिमार्ग गोविदम् पुरातनम् जगद्पतिम् काशिका पुरादिनाथ कालभैरवम् भजे कालभैरवाष्टकम् पठन्ति ये मनोहरम् ज्ञानमुक्तिसाधकम् विचिन्द्र शोकमोहलोभदैन्यकोपतापनाशनम् ते प्रयाति कालभैरवाङ्गिसन्निधिवम् ते प्रयाति कालभैरवाङ्गिसन्निधिम्